मुद्गलपुराणं खण्डं नयन् योगचरितम् अध्यायं 29 नयन् मौद्गला मौद्गलश्रवणमाहात्म्यवर्णनं श्रीगणेशाय नमः सूत उवाच राजास्यी पुण्ड्रदेशस्य सुग्रीव सर्वशास्त्रविद नानाधर्मपरसोऽपि शास्त्रार्थज्ञो विचक्षणः तस्य देशे ह्यना वृष्टिर्बभूवे दुःखवर्धिनि नववर्षकदामेकस्तदो राजादिदुःखितः इन्द्रस्य वरुणस्यैवानुष्ठाने तत्परो ब्राह्मणैर्नित्यमत्यन्तं तोषयामासमेकपं ततो वै नववर्षाभिमेकः पापेन चेरितः वीक्ष्यादिदुःखसंयुक्तसुग्रीवो भू तदो नृपः राजाराज्यं परित्यज्य विश्वामित्रं जगामः पप्र तं प्रणम्यासौ मेखवृष्टिकरं परं तेन सङ्कथितं विप्र मौद्गलं शृणुभूमिप देशे वृष्टिश्च सम्पूर्णा भविष्यदिनसंशयः तदो संशयः ततो राजाद्विजैस्तत्र लेखयित्वा च मौद्गलं ययौ स्वनगरं हृष्टस्तच्छुस्राव महामतिः जनैः सार्धं समीपस्तैस्ततो वृष्टिर्बभूवः प्रारब्धे मौद्गले तत्र तद्दृष्ट्वा विस्मिदो नृपः सर्वे जादा जादापुण्ड्रनिवासिनः राजा गणेश्वरं नित्यमभजद्भक्तिसंयुधः भाद्रे शुद्धप्रतिपदिसमारभ्य समोद्गलं शुश्रावनित्यमानन्दात्पुराणं सर्वसिद्धिदम् पुनर्भाद्रपदं प्राप्य परां शुक्लचतुर्धिकां समाप्तं तत्सपञ्चम्यां चक्रे वै हर्षसंयुधः अधिसंहर्षितो राजा श्रावणं प्राप्य सौख्यदम् शुक्लप्रतिपदिप्राज्ञैः प्रारभन्म उद्गलं पुनः नित्यं शुश्रावसुग्रीवो गाणपत्यपरायणः आषाढ्यां समाप्तं तदमायां प्रचकारः पुनः प्रारभ्य सुग्रीवो जनैः समन्वितः शुश्राव वर्षमध्ये एवं वार्षिकमाचरत् प्रतिवर्षम् महाभक्त्या शुश्रुवुः सर्वनागराः भक्रियुक्ता गणेशानम भजन् दुःखवर्जिताः न तत्र वान्ध्यदोषेण युक्त कश्चिद्बभूवः नरोगशोगसंयुक्तसुग्रीवे राज्यकर्तरी। सर्वसम्वत्समयुक्ता जनास्तत्र बभूभिरे रोगदोषादिभिर्भावैर्हीनाश्च भयवर्जिताः ततः सराजर्षेर्जगाम स राजर्षिर्जगामनगरस्थितैः गणेशं ब्रह्मभूतस्तैर्बभूवे परमद्युदिः गच्छतो निजलोकं वै तस्यांगा द्वायुना परे स्पृष्टा रौरवसंस्थास्ते पीडाहीना बभूविरे तान् गृह्य गानपा विप्रभ्रमीभूतान् प्रजग्रिरे यमाद्या विस्मिता सर्वे प्रशशंसुश्च मौद्गलं विप्रवार्षिकमेवं ते कथितं श्रवणस्य यद् मौद्गलस्य हि माहात्म्यं सर्वसिद्धिप्रदायकं सुग्रीवदेशघकश्चिच्छ्रुत्वा वृत्तान्तमद्भुतं कुष्ठयुक्तो ययौ तत्र पुराणश्रवणार्थदः वार्षिकं राजशार्दूलो समारभदभक्तिदः सोऽपि नित्यम् प्रशुश्राव कुष्ठनाशार्धमुत्तमं श्रुत्वा कुष्ठविहीनः स बभूवे कर्षसंयुतः जगामस्वगृहं पद्भ्यां गृहकार्यरथो भवत भुक्त्वा भोगान् मनोज्ञान् सोम् गजाननं ब्रह्मीभूतो बभूवापि श्रवणस्य बलेन वै एवं सकृत्समाश्रित्य मौगलं विविधा जनाः इह भुक्त्वाखिलान् भोगानन्दे स्वानन्दमाययुः तत्रैव कदिते ब्रूयां नालं वर्षसदैरपि अधः पदप्रोक्तं वर्षश्रवणजं फलम् ओं तत्सदिति श्रीमदान्ध्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खण्डे योगजरिते योगामृतार्थशास्त्रे दक्षमुद्गलसंवादे वर्षेण मौद्गलश्रवणमाखात्म्यवर्णनं नामैको न त्रिंशोऽध्यायः ओम्